Oh समिथो वसन्तमेवत्तो नामवरुन्फे तनो न पादं गजति श्रीष्ममेवावरुं फ किडो गजति वरिषादेवावरुन्धे वरिषर्गजति शरदमेवावरुन्धे स्वाहाकारं गजति हेमन्तमेवावरुन्धे तस्मात् स्वाहाकृ यज्ञमेवावरुं फ गजति कृशोनेवाव वरुन्धे भरिह गजति प्रजामेवा समानेन आद्यं प्रजा बरिह प्रजा स्वे जो लिखाति स्वाहाकारे गजति वाचमेवावरुन्धे दश सम्पद्यं दे दशा अक्षरा विराटन्नं विराड् विराजेवान्नाद्यमवरुन्धे समिथा गजत्यस्मिन्नेव लोके लोक जयश्वेव प्रतितिष्ठति प्रतिजर्ग जय देवदेवजानाः पन्थानस्तेष्वेव प्रतितिष्ठति स्वाहाकारं गजति सुवर्गदेवलोके प्रतितिष्ठत्येतावं दो वैदेवलोकास्तेष्वेव यस्यैवं विदुषः प्रजाजा यज्यन्ते प्रेभ्य लोकेभ्यो मे प्रजाना प्रजयानैर्जायते समिथ बह्वेरिभगजति तमो न पातमेकमिवन्त जडो बह्वेरिभगजति बहिले कमिवमिसुनन्ददे तद्वै प्रजा जानान् मिश्रनं प्रजदाजफर्मिसनैर्जालते देवानाम्ब अनिष्टा देवता सासुरालज्जमजिघागं सन्ते देवागायत्रेण्यौहन् पञ्चाक्षराणि प्राचेनानित्रेण्यप्रदेजेनानि ततो वर्म यज्ञाजाभवद्वर्म यजमाना यत् प्रजा नो राजा यज्यं देवर्मैव तज्जज्ञाया दे देवर्म दे यजमाना रभोत्येतस्म पुरस्ताद्वरिषेद पश्चाद्भ्येदो यथा पूर्वमु वैदिता वै जनयते चक्षुषे वादेत यज्ञस्य गदाज्य भागौ यदाज्य भागौ यजतु चक्षुषे एव तद्यज्ञस्य प्रतिदधादि पूर्वार्ध्य जुहोदितस्मात् पूर्वार्धे चक्षुषे प्रवाहुक्जुहोदितस्मात् प्रवाहु चक्षुषे देवलोकं वा अग्निनानजमानोऽनुपश्यति पितृलोकं सोमे नोत्तरार्धे जुहोदु दक्षिणार्थे सोमाधेम ीमौ लोकामनयोर्लोकजो रमक्षात्ते राजानौ वादेतौ देवतानां यदग्नेशो मामन्तरा देवता यद्येते देवतानां विसृत्ये तस्माद्राज्ञा मनुष्या विसृतां ब्रह्मवादिनं वजन्ति किं तद्यग्ने यमानः कुरुते जेनतश्च पशोन्दाधारो भगतो दतश्चेतृ च तोदाधारो भजतोधारमोर्धन्वदे पुरोनुवाक्या भवति मूर्धानमेवैनगुं समानानात्या रजतिभ्याशोन्यजपदे केशिनगुं हतार्भ्यं केशीवाख्यकामिरुवाच सप्तपदां देशपदे विश्वयज्ञे प्रयोसे यस्यैव भ्रातृंजान् नुदते प्रतिजनिष्यमाणानि यस्ते वीर्यो भजोर्वकयोर्जत्ते यस्ते वीर्योर्वार्धेनध्येन जेन प्रति पुरस्ताल्लक्ष्मापुरोऽनुभाक्या भवति धातानेव भ्रातृं जान् प्रणुदतमुपदिष्टाल्लक्ष्मायाज्यजनिष्यमाणानेव प्रतिनुदते पुरस्ता लक्ष्मापुरोनुभाक्या भवत्यस्मिन्नेव लोके ज्योत्ता उपरिष्टा लक्ष्माचार्यामस्मिन्नेव लोके ज्योतिर्धत्ते ज्योतिष्मन्तामस्मादिमौ लोकौ भव ज्यो जगदेवं वेद पुरस्ता लक्ष्मापुरोऽनुभाग्या भवति तस्मात् पूर्वा ुपरिष्टालक्ष्मायाज्यास्माद्य धनाध्ये वेदपुङ्केन वेदौ वज्र आज्यं वज्राज्यभागो वज्रवषट्कार वज्रयो संभृत्यभ्राजौ यायत्रे गायत्रे कुरोऽनुवाद्या भवति सृष्टव्याज्या ब्रह्मन्नेव क्षत्रमन्वारं भजते स्मात्म्यां भणो मुख्य मुख्य भवतिलदेवं वेदत्रैवैनं पुरोऽनुभाग्ययाः प्रणयति लाज्यजा गमयतिवशत्कारेणैवैनं पुरोनुभाग्यया दत्रैव यच्छति लाज्यजा प्रतिपषत्कारेण स्थापयति त्रिपदा पुरोनुभाग्या भवति त्रयति ष्कारजमानः पशुष्वेव परिष्ठा प्रतिष्ठति गायत्रीभाग्या भवति त्रिष्टभ्याद्यैषावे सप्तपदाशक्मधीरद्वारे तजा देवा प्रजापदद्देवेभ्य यज्ञाने भागामुपसृणं दधिकारयन्ति ब्रह्मवादिनो मयन्त्यस्मात् सत्याघ्याददामान्य हवे प्रजा जातया ममाज्यमिति प्राजापद्यमिजव्यदया तया माहि देवानाहा प्रजापतिरिषन्दागं स एवेभ्य वा भागानि हव्यजं वक्ष्यामहिभ्यजतच्चतुरवत्तमधारगन् पुरोऽनुभात्यादे राज्याय देवदा देवहट्कालाय चतुरवत्तं जहोरिषन्दायस्य वदप्रेणाधितान्यस्य प्रेतानि देवे भ्यो हिं वहं जङ्गिरसो वायितवोत्तमास्वर्गं लोकमायन्तस्पभ्यवाजं देवं भोतगं सर्पं दं तमब्रुवन्निन्द्राज्य बृहस्पदय धृयस्व विश्वेभ्यो देवेभ्यो धृगस्वेशनाध्यज तमब्रुवन्मग्नदेह धृगस्वे दसो अग्नदेः जय जगदा ष्टाकपालो मा वा स्यायाञ्चपो न्युतो भवति सुवर्गस्य लोकस्यामिति चेतमब्रुवङ्कथा नित्यनुपाक्तो भोपमित्यब्रभेदक्षोऽनुपाक्तो वार्च्छत्यपमवारमित्यमरष्टाभ्यजाधस्तादुपानक्तिसुवर्गस्य लोकस्य समश्री सर्वाणि कपालान्नभे पथगितावतः पुरोडाशा जगदिजो स्मास्थ्येनाधिवासयतिरस्मात्यं प्रच्युतं वा एतदस्माल्लोकादगतं नैव लोकं यच्छ्रुतगं हविदमभिसयति देव ैवैनज्ञमय जयद्वै गङ्गपाधन्नश्च रेगो मासः संवत्सरस्या न वेदस्यादमानः क्रमेजय तजद्वेनश्च संवत्सरस्या न वेदो स्यादामथ यजमानः क्रमेजेतसंख्यायोद्वासय ति यजमानश्च मेधादयदिनश्चेदाश्विनं कपालं नर्ववेद्यावापथमेकगपालमश्विनौ वैदेवाना शदौताभ्यामेवास्मे भेषजम् करो निज्जा वाृषुजरेखकपालो भवत्यनजोर्वाणन्नस्य निजन्नशत्यनजो देवैनव्यन्दति प्रतिष्ठ देवस्य द्वासविदः प्रसवतिष्ठमादत्ते प्रसोत्याश्विनो स्यादे भ्रातृं निर्भजति तस्मान् निर्भजन्ति तृति मे भोगाभ्यो निर्भजति चतुर्धगं हरत्य परिमिता देवैनं निर्भजत्युद्धं दिगदेवास्याहमेच्छदपहं युद्धं दि तस्मादोषधः पराभवन्ति भ्रातृ यस्तेखाते यज्ञमुखेन संहिता प्रतिष्ठां गमयति दक्षिणतो वर्षे रसें करोति देवजत नेवा उपमकः पुरेशवदे प्रजा वै पशवः पुरे वैनं वशभिः पुरेशवन्तं करोत्युत्तरं परिग्राहं परिगृह्णात्येतावते वै पृथिवे यावते वेदस्तस्या एतावत एव दृजन्निर्भर्जात्मनवुत्तरम् वरि ग्राहम् वरि गृह्णादि क्रोरमिपवारे तत्करो लिगद्वेदिम् करोधिधा असि स्वधा असेतिजो युप्यदेशान्ते सादहत्यापो वे रक्षोघ्ने रक्षसामपहत्ये शस्य वत्मन् सन्तद्धत्येयन् भिष्यात्तन्धायच्छुवेन अर्पयति ब्रह्मवादुनावदं चद्धर हवेगं शि प्रोक्षे केनावयति ब्रह्मणे प्रोराधर्ह्य वहवेगं शि प्रोक्षति ब्रह्मणाभज् प्रोक्षधि ैनं लोकेभ्यः प्रोक्षति क्रोधमि भवा एतत्करोति यत्खनत्यपोनि शान्ति पुरस्ताः गृह्णाति मुक्षमेवैनं करोति तम् गृह्णाति प्रजापतिनादिज्ञमुखेन संमितम् बहिः स्तृणादि प्रजा वे बहिः पृथिवे वेदि प्रजा एव पृशुजाम्बनिष्ठामगत्य नृष्णज्ञस्तृणादि प्रज दैवैनं पशुभिरन दृष्टम् ोत्तरं बर्हिषः प्रस्तर गं साजयति प्रजा वै बर्हिर्यजमानः प्रस्तरो यजमानमेव यजमानादुत्तरं गणो जगस्मा यजमानो यजमानादुत्तरोन्तर्दधा धुजावृत्या यजमानस्य स्यादुपरि प्रहरप्तृपरे मह्यवर्गो लोको नियच्छति वृष्टिमेवास्मे नियच्छति नात्यग्रं प्रहरे जगत्यग्रम् प्रहरेदत्या पुरस्तात् प्रत्यस्य यत्पुरस्तात् प्रत्यस्येत्सुवर्गाल्लोकाद्यमानं प्रतिनुत् प्राञ्च प्रहरति गजमानमेव सुवर्गं लोकं गमयति न ेष्यते यजमानस्य गोपेवादिनो वरं दिग् यज्ञस्य गजमानगति प्रस्तरयति तस्यक्वसु भर्गो लोकयुज्ञाहवने न हर त्यजमानमेव सुवर्गं लो गङ्गमयदिगमानेतद्यजमानिषदेतत्प्रस्तरं यो जप्यन्ते भरे प्रहर दिशान्नारम्भणदिभवादेतरिजस्य येश्वर वैपन भविता ध्रुवासे देवानधिषरीरं वे ध्रुवास्यमेव दे प्रतिष्ठदिन वे पनभत्यगा े दत्या हयद्भ्रोजातगम् भग्न्यगत्यग्ना भग्न्यम् गमजमाननो सुवर्गाल् लोकात् भजतगमन्यत्येव भ्रोजाद्यजमानमेव स्वर्गम् लोकम् गमयति ग्नेस्त्रयोगुं सोऽलभ्यो हव्यस्य आर्ति देवताः प्रयुजमेच्छन्तं मत्सः प्रात्तमसपद्धिजा व्या सजो माप्रावोचि तस्मान्मत्सन्धिजामन्मविन्धन्त ृणे यस्याहृदस्यन्ताने वदनप्रेनादि परिचेन् परिदधाति रक्षसा महद्दे सग्रस्परिशयति रक्षसा मनन्मवचारा जन पुरस्तात् पुरस्ताद्रक्षागच्छोष्टाधैव्यादधातिष्ठे ब्रह्मवादिनापदं दशत्वै गजय तजो यज्ञस्याध्यापसी ति भोपदजय स्वाहा भुवनपदजय स्वाहा स्वाहेदस्कन्दमनुमन्त्रस्यैव तदार्चा देवतारोडाशापुपागुंसुजाचमन्तराय जत्यजामिषत्वा जाज्ञो विपरिज ृगन्धराज्यो तस्मादग्नाज्यमात्मादितस्मादेतद्भागधं प्राजच्छकृते पद्यं धिगदग्नदेष्टकृते पद्यति रुद्रवत्तरार्धातवध्येषा वे रुद्रस्य दिक्सायामेव रुद्रम् निरवदयिधानभत्तस्याप्ते पशवो वेपोर्वा आहुतज एष रुद्रा यदग्नजगत्पूर्वा आहुलेन भिजुहुजाद् रुद्राजपशो न विदध्यादपशल्यजमानस्यानुतिहानपूर्वा आहुलेर्जुहतिपशो नाम् गोपी छाया मनःपृथिजा यज्ञमविन्दत्सोश्वरजिता ब्रूता मित्रावरुणगोरेश्वरधितौ ततो गागुं समेतजतातोघृतमपेद्य ततस्माद्धृतपर्युत्स्यते तदस्यैतन्मोहोदगो रथन्दुं सः पृथिव्याहेदम् वै रथं तरमिमामेव सहान्ना देनोपक्वयदमुपहोतं वामदेव्यम वाव भस्मरेदा बहुदा भक्षसखज्जाह सामवे समयम भक्पर्य धाउतहुता ीत्यात्मानमेव पक्वयत आत्मा ह्युपहोतानां वसवो वागो नैव पक्वयते चतुर्पक्वगद चतुष्पादो हि वसवो मानवेत्यामग्रेव पदेत्याहगदेवास्ये पदाद्यस्मादेवमाहमेत्रावरुणेत्याहमित्रावरुणोकेनाजो समेरजतां ब्रह्मदेवगत मित्याह ब्रह्मैव बह्यधेव दैव्या अद्वय उपहोता उपहोता मनुष्या इत्याह देव मनुष्यानेव बह्वयधे जिम यज्ञमभानय यज्ञपतिम्भर्था नित्याह यज्ञायथे पदमानागतासि समासा उपहोते ज्या वा पृथिवी इत्याह ज्या वापृथिवी एव बह्पयते बोध्वजे सदा वी नित्याह देवे देवपुत्रे इत्याह देवे देवपुत्रे दे उपहूतो यजमान इत्याह यजमानमेवोपः प्रयत उत्तरस्यान्देव यज्ञायामुपभूतो भोजसि हविष्करण उपभूतो दिव्यजेधामन्नुपहूत इत्याह प्रजावा उत्तरा देव यज्ञा पशवो भो भोजो हविष्करण कोसुवर्गो भोगो यते विश्वमस्य प्रिदमबहोदमित्याः सम्भकारमेवोपह्पयते पशवो वागिणा स्वयमादत्ते काममेवात्मना पशूनामादत्ते न्यन्यः कामं पशूनां प्रगच्छति वाचस्पदजय त्वा हुदं प्राश्नामेत्याह भवति हविर्वै चतुरभक्तं पशवश्चतुरभक्तै यद्धोता धाजस्पदय त्वा हुदं ब्राश्नामेत्याह परोक्षमेवस्पदय त्वा हुदं धर्माजयन्त स देवा विध्वम् देवामि स्पृष्टम् वै न गिरम् भविष्यति को राजयिष्यामीष्टकृतस्पृष्टकृग्रन्थमिज वेन संमितम् तस्माज त्रमवज्येद्योगद्ये द्वौपदे तद्यज्ञस्य यदुपदस्तृणे यादभिष खाजयद्भगदस्सज्ञश्वाजयदायाधिकारय दिद्भिः सम्मज्जते वाजमानः प्रतिष्ठयते यत्नश्च मति हरेदनभिद्धाभिद्धैरग्रेण परिहरति तीर्थेनैव परिहरति तत्कोषे परिजहरं तत्कोषाप्राश्य ततो तस्मा प्रविष्टभागो दन्त गोहिरन् देवा अब्रुवन्वि वा अयमाध्य प्राचित्रो वा अयमु भोजि तद् बृहस्पतजैव बृहस्पतिरित्सं भावस्य आर्तिमानिष्यते ति स देवस्य त्वा सविदः प्रसवे अस्मिन् बाहुभ्याम् गृह्णामेत्यब्रवेत् समित्र देवेन ब्रह्मणा देवताभिस्नन्दं माहिगं शिष्यतेत्यग्ने स्वास्थ्येन प्रास्यामेत्यब्रभे न्यग्ने रास्य स्व विभेत् प्रासितं माहिष्यते ब्राह्मणस्योदरे नेत्यब्रमे ब्राह्मणस्योदरम् किञ्चन हि नास्ति बृहस्पदे ब्रह्मणे गजहे ब्रह्मेष्ठे तस्मात् प्राणाः क्रामन्तु जः प्राचित्रम् ब्राह्नात्यद्धर्मार्जयित्वा प्राणान् सम्मृशते अमृतम् वै प्राणा अमृतमापः प्राणा नगथा स्थानमुपह्पयते धात्यग्निमुखादिधात्युत्तरात्सकृत्सम्माष्टिवरानि वह्ये दलिः दग्नश्चतुः सम्पद्यते चतुष्पादः पशवः पशोने वारन्धे ब्रह्मन् प्रस्थास्यामयित्याः श्रुतो यत्र ब्रह्मा यत्रैव यज्ञ श्रुतस्तदेवै नग्धस्तेन प्रमे वेहद्वै वनस्याद्यच्छेष्णासे माद्यत्रोष्णेवासेता संवृत्तो यज्ञस्यात् प्रतिष्ठज्ञश्रुतो यत्रैव यज्ञश्रुतस्तदेवै नुं संप्रयच्छति देव सवितरे तत्रैव प्राहेत्याह प्रसोत्यै बृहस्पते ्रह्मेभ्या हस हे ब्रह्मेच्छ स यज्ञम् पाह्य स यज्ञपदिम् पाह्य स माम् पाहेद्याहज्ञा जगजमानात्मज तेभ्यमाशास्ते नाश्रा ब्रह्मवादनापदम् तेष्टा देवता अथ कथमजयते छन्दांसेति ब्रोजात्रे दृष्टभं जगते मेद्यथा ैुंसेजिता नेव तद्यजति देवानांष्टा देवता आसन्न देवा आहुदेतदुर्वेनामासुर आसेत्स जयतरिह यज्ञस्याशिषमवृन्दयज्ञो राजयुद्यावापृषवे भद्रमभो दिख्येत तुसुरै यज्ञस्याशिषं गम ्या वा पृथिवे भद्रम भोदित्येव ब्रोजाद्य यज्ञस्या सुषङ्गमयत्यात्मसोक्तवाकमुदनमो ोपावसाना च स्वध्यवसाना चेति प्रमादुको यजमानस्याद्य प्रमेयते क्षेमामुपावस्त्य सोपचरणा चरणा चेत्येव ब्रोजाद्वरे दशेवास्ते विज्योतिमाशा आस्तेन प्रमादुको तिवे यज्ञस्याशीर्गच्छेदाशा आस्तेज गजमानो सा वित्याह निर्दिश्यैवै नगो सुवर्गं लोकं गमजत्याजुराषा आस्ते सुप्रजास्तमासा अस्तवित्याशिषमे वैदामासा आस्ते सजातवनःस्यामासा अस्तवित्याहाराणामे सजाता प्राणादेव नान्तरे दि तग्निर्देवो देवेभ्यो वनदेवजमग्ने त्याहार्यदेवेभ्य मनुते भयम् मनुष्येभ्यरिवावेतदाहेहगर्वामस्येदञ्च नमो देवेभ्य इत्याहयाश्चैव देवताय चियाश्च नताभ्यदेवो भजे एभ्यो नमस्करो चात्मनो नाहाच्चै देवावे यज्ञस्य स्वगा कर्तारन्नाविन्दम् देशुम् वारृहस्पत्यमब्रुवन्निमन्ना यज्ञ किं मे प्रजापगुराशतेन यातयासहस्रेणोहितं गलवज्यावतः प्रस्कज्य पापुं सों सङ्गृह्णान् विदृलोकन्न प्रजानादि तस्माद्ब्राह्मणा जनापकुरेतन निहन्यान्न लोहितं हैनसा भवति दक्षय्यो रावृणेमह विद्याहल सकाकरोति तत्संयोजो रावृणेमह इत्याह संयमेव समर्थयति गातु यज्ञा जगातु यज्ञपद जगित्याः शिषमेव तद् गज दलेतदेव हितं नष्टारूपाणि देवानां गृहपदे गजते प्रतिच्छामि एतद्यज्ञस्य कृता न प्रजाजा युज्यन्तज्यराम्ने संयाजा च मनोश्च पद्ने संयाजानामृजाय जजामि त्वाजा पङ्क्तिप्राय मावे यज्ञः पङ्क्तजनः पञ्च प्रजाजा युज्यन्ते सत्वारः पत्ने संयाजाः समिष्टगजः पञ्चमम् पङ्क्तिमेवानुप्रजन्ति इक्ष्वाहिदेवहोतमागुम् अश्वागुम् अग्नेरथेरिवादासदः पुरनो देवदेवागुम् अच्छावोचो विदुष्टरः श्रद्विश्वाजाकृति हयजमिष्यसह सस्सूनवाहुता दृतावाजग्निजोभुवः अयमग्नः सहस्रिणोवाजस्य स दृनस्पतिः कवेरजीणाम् यथा न्यिरः तस्मै नो न्यमे वाचा विलोपनित्यया कृष्णे चोदस्व सुमुष् सेनयाग्नेरपागचक्षसः मणिङ्गोचस्तरामहे मानो देवानाम् विषः प्रश्नातीभोत्साः सहासुरग्भिः मानः समस्य दोढ्यः परिद्वेषसो अगुम्हतिः नमस्ते अग्नवोचकृष्णयः समागमिष्ठयसंकृति मानो अस्मिन् महाधने परामर्घारभृत्यथा संवर्गतुम् सर्वम् रजिञ्जय ग्ने सुषक्तु दुत्सुनाो अमबत्सवः यस्याजुषम् न पस्मिनश्च मे मधुर्मखस्य वा कम्खेदग्निर्वृथा वरी परस्याधिसम्वतो वरागुम् अभ्यातर्राहमस्मितागुम् अव विद्माहिले पुरा वयमग्ने विदुर्यथामसः धारे सुन्दमीमहे शर्यः दिग्मशृङ्गंसगः सखादः सम्वः सन्ध्यञ्जमिषग्निस्त्वमन्त्रार्गरे नामोर्जुनग्रे सहस्वते सगम् समिध्युपसेन्नग्ने विश्वान्निर्यः समिध्यसे स नोपसोऽ प्रजापदे सवेदसो मा भूषणे वौ देवौ छन्दः स्वाहवामः शन्दः समिते छन्दशत आवह विनहर्षे अत्तमे प्रचकदा महेशा त्वकम् रजश्च मनने च पन्था देवे रत्नमभजन्तः पितलः स्वामपोर्वे कर्माणि चक्रुः पवमानधीराः ृहः संविधानोऽध्यावासि आदन्था तस्मै विषाभिधेमभयज्ञामबलोरीणाप्ताः गच्छदसुप्रणीतयः मत्ताहवेगम् शप्रगतानि बहिष्टथा देगम् सर्ववेरम् दधातना बलिहदः पितरवोत्तर्वा जोहविजा च कर्मातुषध्वम् तारशन्त मेनाथास्मभ्यगुम् शय्यादपो दधाता आहम् पितरे अविच्छनपादम् च विक्रमणम् च विष्णोः भजन्त विद्वस्तमिष्ठाः उपहोदाः पितरः सोम्यासो परिहृष्येषु निधिषु प्रियेषु आगमन्तु तृपन्त अवन्त्वस्मान् उदीरमवद्वरा समुन्वध्यमाः पितरः सोन्यासः असु युरप्रकारिधज्ञ्यास्ते नो वन्तु पितरोहवेषु इन्द्रम् विदम्भ्यो नमो अस्मद्यये पोर्वासो य उपरासजीयुः एवानथिवैरजस्यानिषत्ता ये वा नो नगुंसु वृजनासु भिक्षु अथा यथा नः वितरः परासः रत्नासो अग्नरतमा सुषाणाः सुशीलयम् देशिलोत्सशासह क्षामारुणेन प्रजः विलानि वक्ष्यसि देवेभ्यश्च पितृभ्यः जातवेदो वा आर्थवित्वाधजाते अक्षन्नध्यत्वम् देवप्रयताहवेकविले दे यम अङ्गिराभर्ग्रहस्वभरभर्वा प्रधानः यागिष्टदेवा वामृथुरु स्वाहान्ये स्वहयान्ये मदन्तिः संविधानः आत्त्वा मन्त्राः कविशस्तावहम् वयनाराजनः विहामादयस्व अङ्गिरोभिरागहिलग्नैभिरियमवैरोपैरिहमालयस्व विभस्वन्तः पिताधेऽस्मिन् यज्ञे भलिः स्यानि अन्यरसानः पितः नवग् सर्वाणा भृगवः सोम्या सः एषाम्भयगों सुमतो यज्ञया नामपि भद्रेसौ मनसे स्याम हरिः